हर हि ॐ दुर्गास्तुकी श्रीवैसम्पायन उवाच विराटनगरं रम्यं गच्छ मानो युधिष्ठिरः अस्तु वन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीं यशोधागर्भसम्भूतां नारायणवरप्रियाम् नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीं कंसविद्रावणकरीम् असुराणां क्षयङ्करीं शिलातटविनिक्षिप्तामाकाशं प्रतिगामिनीं वासुदेवस्य भगिनीं दिव्यमाल्यविभूषितां दिव्यां वरदरां देवीं खड्ग खेटकधारिणी बारावतरणे पुण्ये ये स्मरन्ति सदा शिवा तान्वै तारयसे पापात् पङ्के घामिव दुर्बलां स्तोतुं प्रचक् क्रमे भूयो विविधैः स्तोस्त्रसम्भवैः आमन्त्र्यदर्शनाकाङ्क्षी राजा देवीन् सहानुजः नमोऽस्तु वरधे कृष्णे कुमारिब्रह्मचारिणी बालार्गशत्रुसागरे पूर्णचन्द्रनिबानने चतुर्भुजे चतुर्वक्त्रे फेनश्रोणि पयोधरे मयूरपिच्छवलये केयूराङ्गदधारिणि भासिदेवी यथा पद्मा नारायणपरिग्रहः स्वरूपं ब्रह्मचर्यं च विशदं तव कृष्णश्च विषमा कृष्णा सङ्कर्षणसमानना बिभ्रती विपुलौ बाहु चक्रध्वजसमुश्रयौ पात्री च पङ्गजीकण्ठी श्रीविशुद्धा च या भुवि पाशं धनुर्महाचक्रं विविधान्यायुधानि कुण्डलाभ्यां सपूर्णाभ्यां कर्णाभ्यां च विभूषिता चन्द्रविस्फर्दिना देवी मुखेन विराजसे मुकुटेन विचित्रेण केशबन्धेन शोभिना भुजङ्गाभोकवासेन श्रोणीसूत्रेण राजता। विभ्राजसे सा भद्रेन भोगेने वेहमन्तरः ध्वजेन शिगिपिच्छानामुच्चरितेन विराजसे कौमारं व्रतमास्ताय त्रितिवं पावितं त्वया तेनत्वं त्वं देवी। त्रितसै पूज्यसेऽि च त्रैलोक्यरक्षणार्ताय महिषासुरनाशिनी प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव जया त्वं विजया चैव शङ्घ्रामे च जयप्रदा ममापि विजयं देहि वरधा त्वं च विन्ध्ये शैवनगश्रेष्ठे तव काली काली महाकाली सीदुमां सपसुप्रिये कृतानुयात्राभूतैस्त्वं वरधा कामचारिणे बारावतारये चत्वां त्वां संस्मरिष्यन्ति मानवाः प्रणमन्ति च हि प्रभाते तु नराभुवि न तेषां दुर्लभं किञ्चित् पुत्रधो दुर्गातारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः कान्तारेष्वसन्नानां मग्नानां च महार्णवे दस्युभिर्वानिरुद्धानां त्वं गति परमानृणां जलप्रदरणे चैव कान्तारेष्वटवीषु ये स्मरन्ति महादेवी न च सीदन्ति ते नराः तवं कीर्तिश्रीधृतिः स्थितिर्ह्रेर्विद्या सन्तधिर्मतिः सन्ध्यारात्रिप्रभानिद्रा ज्योत्स्ना कान्तिक्षमाधया नृणां च बन्दनं मोहं नासं धनक्षयं व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि सोऽहं राज्यात् परिभ्रष्ट शरणं त्वां प्रपन्नवान् प्रणतस्य यथा मूर्ध्ना तव देवि सुरेश्वरी त्राहि मां पद्मपद्राक्षी सत्ये सत्य त्या भवस्वनः शरणं भवमे दुर्गे शरण्ये भक्तवत्सले एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् उपगम्यतु राजानामितं मदीयं वचनं प्रभो भविष्यत्यशिरादेव सङ्घ्रामे विजयस्तव मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीं राज्यं निष्कण्टकं कृत्वा बोष्यसेमें पुनः भ्रातृभिक्सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कला मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ये च लोके विगतकल्मषाः तेषां तुष्टा प्रदास्यामि राजमायुर्वपुस्सुतम् प्रवासे नगरे वापि सङ्ग्रामे शत्रुसङ्कटे अठव्यां दुर्गकान्तारे सागरे गहने गिरौ ये स्मरिष्यन्ति मां राजन् यताहं भवता स्मृता दुर्लभं किञ्चित्स्मिन् लोके भविष्यति इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठे तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः मत्प्रसादाच्च वः सर्वान् विराटनगरे स्थितान् न प्रज्ञास्यन्ति गुरवो नरा तन्निवासिनः त्युक्ता वरदा देवी युधिष्ठिरमरिन्धमं रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरदीय रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरदीयत इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेश पर्वणि अष्टमोऽध्यायः हरिः ओ